नारायणीयं दशकं ट्वेण्टि फैव् मीटर् शार्दूलविक्रीडितम् स्तम्भे कट्टयदो हिरण्यकशिभो कर्णौ समाचूर्णयन्नाकूर्णजगदण्डकुण्डकुहरो घोरस्तवा भूद्रवः श्रुत्वायं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतम् स्तम्भः कश्चन सम्पपादचलितोऽप्यम्भोजभूद् विष्टराद दैत्ये दिक्षु विसृष्टचक्षुषि महा संरम्भिमिस्तम्भदः सम्भूतं न मृगात्मगं न वपुस्ते विभो किं किम् भीक्षणमे ददद्भुतमि दिव्युद्भ्रान्त चित्ते सुरे विस्फूर्जद्धवलोऽग्ररोम विकस्सद्वर्ष्मा समा जृम्भधाः तप्तस्वर्णसवर्णकूर्णदधिरूक्षाक्षम् सडा जीयात्तवेदं बभुः व्याप्तव्याप्तमहादरी सखमुखं खड्गोग्रवल्गन्महाजिह्वा निर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् उत्सर्पद्वलिभङ्गभीषण हनुप्रस्वस्तवि यस्तरग्रीवं पीवरदोषदोद्गद नख क्रूरांशुदूरोद्बणम् व्योमोल्लङ्घिखनाखनोपमखनप्रध्वान निर्धाविधस्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः न्यूनं विष्णुरयम् निहन्यमुमितिदिभ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्दमधृदा दोर्भ्यां पृदुभ्याममुं वीरो निर्गलितोऽधड्गफलकौ गृह्णन्विचित्रश्रमान्व्यावृण्वन् पुनरापपादभुवनग्रासोऽद्यदं त्वामहो भ्राम्यन्दं दिदिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्वारेधोरुयुगे निपात्य नखरान्व्युत्खाय वक्षो भुवि निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं वायं वायमुदैरयो बहु जगत्संहारिसिंहारवान् त्यक्त्वा तम् हदमाशुरक्तलहरी सिक्तोन्नमध्वर्ष्मणि प्रत्युत्पत्त्य समस्तदैत्यपटलीम् चाखाद्यमाने त्वयि भ्राम्यद्भूमि विकंपितां बुधिकुलं व्यालोलशैलोत्करम् प्रोत्सत्पत्खचरं चराचरमहो दुस्तामवस्ताम् दधौ तावन्मांसवपाकरालवपुषम् घोरान्ध्रमालाधरम् त्वाम् मध्ये सभमिद्धरोषमुषिदम् दुर्वारगुर्वारवम् अभ्येदुम् न शशाकोऽपि भुवने दूरे स्थितिरींजवासवुखा प्रक्लादे भूय्यक्षतषधावि नमत्य पभये प्रहलादे पदमे कारुण्यभाराकुल शातस्वूर्धि समधास्तोत्रैरथोद्गायतस्तस्या कामधियोऽपि ते निधवरं लोकाय चानुग्रहम् एवं नाडित रौद्रचेष्टितविभो श्रीदापनीयाभिदश्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धा कृते तत्तादृङ्निखिलोत्तरम् पुनरहो कस्त्वाम् परोल्लङ्घयेत् प्रह्लादप्रिय मरुत्पुदपदे मरुत्पुरपदे सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द